इत्येवमुक्त्वा पुरुषप्रवीरस्तम् राक्षसम् क्रोधपरीतचेताः विश्वस्तवस्त्राभरणम् स्फुरन्तमुद्भ्रान्तचित्तम् व्यसुमुत्ससर्जा तस्मिन् हते तोयत तुल्यरूपे कृष्णाम् पुरस्कृत्य नरेन्द्रपुत्राः भीमम् प्रशस्याध गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः विदुर उवाच एवम् विनिहतः सङ्ख्ये किर्मीरो धर्मराजस्य कौरवा ततो निष्कण्टकम् कृत्वा वनम् तदपराजितः द्रौपद्या सह धर्मज्ञो वसतिम् तामुवासः समाश्वास्य च ते सर्वे दौपदीम् भरदर्शभाः प्रहृष्टमनसः प्रीत्या प्रशसं सुरभृकोदरम् भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः विविशुस्ते वनं वीराः क्षेमम् निहतकण्टकम् समया गच्छता मार्गे विनिकीर्णो भयावः वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः तत्राश्रौषमहम् चैतत्कर्म भीमस्य भारत ब्राह्मणानाम् कथयताम् ये तत्रासन् समागताः वैशम्पायन उवाच एवम् विनिहतम् सङ्ख्ये किर्मीरम् राक्षसां वरम् श्रुत्वा ध्यानपरो राजा निः इति श्रीमहाभारते वनपर्वणि किर्मीरवधपर्वणि विदुरवाक्ये एकादशोऽध्यायः